चरेश्चेन्नो विदितः कालमेतयुक्तो राजन् मोहयित्वा मदीयान् ब्रवीमि सत्यम् कुरु संसदीह तवैव ता भारत पञ्च नद्यः कालमपास्य भोगान् वसेम इत्याह पुरा स राजा मध्ये इत्थन्तु देशाननु संचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः सुयोधनश्चापि न शान्तिमिच्छन् भूयस्स मन्योर्वशमन्वगच्छत् उद्योजयामास कुरुंश्च सन्धिमास्थाय स ताम् सकाशे आर्यस्य मन्ये मरणाद्वरीयो यद्धर्ममुत्क्रम्य प्रशासेत् तदैव चेद् वीरकर्मा करिष्यो यदा द्यूते परिघम् पर्यमृक्षः बाहूदिधक्षन् वारितः फाल्गुनेन किन् दुष्कृतम् भीम प्रागेव चैवम् समय क्रियायाः प्राप्तन्तु कालन्त्वभिपद्य पश्चात् किम् मामिदानीमति वेलमाथ मम भीमसेन दूये विषस्येवरसं हि यज्ञाज्ञसेनीम् परिक्लिष्यमानाम् सन्दृश्य तत् क्षान्तमिति स्म भीम न त्वद्य शक्यम् फलानामिव बीजवापः यदा हि पूर्वम् विकृतो सा सा विदित्वा महागुणम् हरति हि पौरुषेण तदा वीरो जीवति जीवलोके, लोके लोके लभते समग्राम् मन्ये चास्मै शत्रवः सन्नमन्ते मित्राणि चैनमचिराद्भजन्ते देवायिवेन्द्रमुपजीवन्ति चैनम् मम प्रतिज्ञाम् च निबोध सत्याम् वृणे राज्यञ्च पुत्राश्च यशोधनञ्च सर्वन्न सत्यस्य कलामुपैति श्री श्रीमहाभारनपर्वण अर्जुनागमनपर्व युधिष्ठिवाक्ये चतशोध्याय